ध्याय अर्जुनमुवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान् विताः ेषां निष्ठा तु का कृष्ण सत्वमाहोरजस्तमह श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा सात्विकी राजसी चैव तामसी चेति तां श्रृ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धस्यैव स यजन्ते सात्विका देवा प्रेतान भूत यक्षाजसा प्रेतान्भूतगण यजंतेमसा जनास्त्रिहत घोर तप्य तपो जना दंभासंयुक्ता कामरागबलान्विता कर्षयन्तः शरीरस्थम् भूतकामम चेतसः मां चैवान्तः शरीरस्थं तान् विद्या सुरनिश्चयान् सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथादानं तेषां भेदमिमं शृणु आयुः सत्त्वबलारोग्यः सुखप्रीतिविवर्धना रस्यास्निग्धा स्थिरा हृद्या आहारा सात्विकप्रिया कत्वं ललवणात्युष्ण तीक्ष्णरूक्षविदाहिनः आहाराजसस्येष्टाय दुःखशोकामयप्रदा यातयामं गतरसं पूतिपर्युषितं च उच्छिष्टमपि चामेध्यम् भोजनं तामसप्रियम् अफलाकाङ्क्षिभिव्यज्ञो विधिदृष्टो युज्यते यष्टौयमेवेति मनः समाधाय स सात्विकः अभिसन्धाय तु फलं दम्भार्थमपि चैवयत् युज्यते भरतश्रेष्ठतं यज्ञं विधिराजसं विधिहीनम सृष्टान्नं मन्त्रहीनम दक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते देवद्विजगुरुप्राज्ञः पूजनं शौचमार्जवं ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते मनःप्रसादसौम्यत्वम् मौनमात्मविनिग्रहः भावसंशुद्धिरित्येतत् तपो मानसमुच्यते श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते सत्कारमानपूजार्थं तपोदम्भेन चैवयत् क्रियते तदिह प्रोक्तं। राजसं चलमध्रुवं मूढग्राहेणात्मनो यत् पीडया क्रियते तपः परस्योत्सादनार्थं वा तत्मस मुदात दातव्य दीयते देशे काले तान सात्क स्मृत यु प्रत्युपकाराथ मुद्द्युन दीयते च परिक्लिष्टम् तद्दानम् राजसं स्मृतम् अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्कृतमवज्ञातम् तत्तामसमुदाहृतम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिना दित्यनभिसन्धाय फलं यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावेच च सदित्येतत् प्रयुज्यते प्रशस्ते कर्मणि तथा सच्छब्दः पार्थयुज्यते यज्ञे तपसिदाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयं सदित्येवाभिधीयते अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च असदित्युच्यते पार्थ न च तत्प्रेत्य तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याय योगशास्त्रे श्रीकृष्णादुनसंवादे श्रद्धात्रयविभाजयोगो नाम सप्तदशोऽध्यायः